हरिओं श्री सीतामचंद्रभ्यम अथ श्रीमदवायोध्या पंचाश मगे राण अयोध्या प्रीतवाय अनु प्राथना श्रुरंगरपुर गंगा तटे समा तौ तसो निषादराजेन घुवेन तस् सत्कार विशाला कौशलाम रम्या यात्रा लक्ष्मणपूर्वजः अयोध्याम् उन्मुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् आपृच्छे त्वां पुरी श्रेष्ठे काकुत्स्थपरिपालिते दैवतानि च यानि त्वाम् पालयन्त्या वसन्ति च निवृत्त वनवासस्ताम् अनृणो जगति पतेः पुनर्द्रक्ष्यामि पित्रा च सङ्गतः चतुर्चिरे तां राक्षो भुजम् उद्यम्य दक्षिणम् अश्रुपूर्णमुखो दीनो ब्रवीद्या न अनक्रोशोदया चैव ययाही वकृत चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ते भिवाद्यमात्मानम् कुत्वा चापि प्रदक्षिणम् विलपन्तो न राघोरम् वितिष्ठञ्च क्वचित् क्वचित् तथा विलयतान् तेषाम् अतृप्तानां च राघवे अचक्षुर्विषयं प्रायात् यथार्के क्षणदामुखे ततो धान्य धनोपेतान् दानशील जनान् शिवान् अकुतैश्चित् चैत्यूपसमावृतान् उद्यानाम् रावणोपेतान् सम्पन्ना सुललाशयन् तुष्ट पुष्टोकुल कुलसेवितान् रक्षणीया नरेन्द्राणाम् ब्रह्मघोष भिनादितान् रथेन पुरुष व्याघ्रे कोसलान्य वर्तते मध्येन मुदितं स्फीतम् रमोद्यान समाकुलम् राज्यं भोजम् नरेन्द्राणाम् ययोद्धूति मताम्बर तत्र त्रीपथगां दिव्याम् शीततोयामशैव ददर्श राघवो गङ्गां रम्यां ऋषिनिसेविताम् आश्रमे अविदूरस्थे श्रीमद्भिः सम्बलङ्कृताम् कालेऽ्सरोभिरुष्टाभिः सेवितां भूरधं शिवाम् देवै दानवगन्धर्वैः किन्नरै उपशोभिता नागन्धर्वपत्नीभिः सेवितां सततं शिवा देवाक्रीडशताकीर्णां देवोद्यानयुतां नदीम् देवात्माकाशगताम् विख्यातां देवपद्मिनीं जलाघाताट्टहासोगराम् निर्मलहासिनीम् क्वचित् जलम् क्वचिदावर्त शोभितम् क्वचित् सीमित गम्भीरा गम्भीर निर्घोषम् क्वचित् भैरवनीश्वरसंघलम् निर्मलोत्तर संकुलम् क्वचिदाभोगपुरिणम् क्वचिन् निर्मलवालुकांसारसङ्घुष्टकोपशोभिताम् सदामप्तये च वियगै अभिपन्नामनिन्दिताम् क्वचित् क्षीरे वृक्षै मालाभिरिव शोभिताम् क्वचित् कुण्डलैः पुशोभिताम् नानापुष्परजोध्वस्ताम् समधाम् ते क्वचित् कृपेत मलसंघ्राताम् मणि निर्मलदर्शनं दिशा गजैर्वनगजै मत्तैश्च वरवारणै देवराजोपवाह्यैश्च तन्नादितैव नान्तरम् प्रमदामेव यत्नेन भूषितां भूषणोत्तमये फलपुष्पैः किशलयै वृतां गुल्मै विजय तथा विष्णुपाद सुतां दिव्याम् अपापां पापनाशिनीं शिंशुम्भारैश्च नक्रैः च भुजङ्गै च समन्विताम् शंकरस्य जटाजूट भ्रष्टां सागर तेजसमुद्रमयि सारस क्रौञ्चनादिताम् आससाद महाबाहु शृङ्गवेर पुरं पते ताम्बुर्भीकैल्यावर्ताम् अन्ववेक्ष्य महारथः सुमन्त्रम् अब्रवीभूतम् यैवाद्य सा महे अविदुरादयं नद्या बहुपुष्पै प्रबलवन् सुमान् वसाम्भोत्रैव सार्थे प्रेक्षामि सरितां श्रेष्ठां सम्मान्य सुलीलां शिवाम् देव मानव गन्धर्व मृगपन्नकपक्षिणां लक्ष्मणश्च सुमन्त्रश्च बाढम् मित्येव राघवम् उक्त्वा तम् इङ्गुदि वृक्षम् तदोपाय चतुर्हयै रामोऽभियाय तं रम्यं वृक्षम् वीक्षा कुन्दर रद्य स लक्ष्मण मोचय हयोत्तम वृक्ष मूल रास्थे कुताजलि त्राज गुना तमस्त घषादात बलव स्थपतिशे विश्रद्रुवा पुरीश व्याघ्रम गतम् वृद्धै परिवृतो मात्यै ज्ञातेभिः चाप्युपरागतः ततो निजादाधिपतिम् दृष्ट्वा दूरादुपस्थितम् सोमि तृणराम समागच्छन् स तम् मातः परिष्ज्य घोराय गवम् अब्रवीत् यथायोध्या सेदं किं करवाणि ते ईदृशम् हि महबाहु कप्राप्सत्यतिथिम् प्रियम् ततो गुणावदन्नाद्यम् उपादाय पृथक् विधम् अर्घ्यं चोपानयच्छीघरम् वाक्यं चेदम् उवाच स्वागतम् ते महाबाहु तवेयम् अखिलामहि वयं भवान् भरत साधु राज्यम् भक्ष्यं भोजं चपेयम् च लेहं चेतदुपस्थितम् चे शयनानि च चे मुख्यानि वाजिनां खादनं च ते गुहम् देव ब्रुवाणं तु राघव पत्युवाच अर्चिताश्चैवष्टा च भवता सर्वदा वयं पद्यामपि गमाच्चैव स्नेहसन्दर्शनेन च भूयाभ्याम् च अद्वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् दृष्ट्या त्वाम् गश्यामि झरोगन् स बान्धवे अपि ते कुशलम् राष्ट्रे मित्रेषु च वनेषु च यत्विदम् भवता किञ्चित् प्रीत्या समुपकल्पितम् सर्वम् तदनुजानामि न वर्ते प्रतिगृहे कुशचीराजिनधरम् फलमूलशनं च मरम् विद्धि प्रणीहितं धर्मे तापसं वनगोचरम् अश्वानां खादनेनाहम् अर्थीनान्येन केनचित् एतावत्तात्र बष्यामि सुपूजितः एतैः एते पितुर्दश रसस्य मे एतैः सुभीते अश्वे भविष्यामिह अहमर्चित अश्वानां प्रतिपानम् च खादनम् चैव सोन्वशात् गृहस्तत्रैव पुरुषन् त्वरितम् दीयतामिति तदश्चिरोत्तरासङ्गम् सन्ध्यामन्द्वास्य पश्चिमम् जलम् एव ददे भोजम् लक्ष्मणे न तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः स्वभार्यस्य ततो भीत्य तथो वृक्षम् उपाश्रितः गुहेऽपि सह सूतेन स्वमित्रिम् अनुभाषयन् अन्वजाग्रय ततो रामम् अप्रमत्तो धनुर्धरे तथा शयानस्य ततो यशस्विनो मनस्विनो दाश्रतेर्मात्मने दृष्ट दुःखस्य सुखोचि सत्य तदा व्यतीतः सुचरेण चर्वरी इत्याचि श्रीमद् रामय वाल्मीकि अधिकव्यद्याकण्डे पञ्चाशे सर्गे रीथिता रामचन्द्रार्पणमस्तु